निःसृष्टेषु त्वया राजन् पाण्डवेषु महात्मसु ततोहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि विदुरद्रुपदसंवादे पञ्चाधिकद्विशततमोऽध्यायः